श्री नमहा, श्री हरये श्रीहरेश नम अतोशोध्याय श्रीशुक उवाचितुक्व पुषं पुरातन महानु साधुसमताजलिबाष्पकलाकुले क्षण भक्ुत्को गिरा गिराब्रवीद बलिरुवाच अहो प्रणामाय कृतः समुद्यमः प्रपञ्च भक्तार्थविधौ समाहितः यल्लोकपालैस्त्वदनुग्रहो मरे अलब्धभूर्वो बसदे सुरेऽर्पितः श्रीशुक इत्युक्त्वा हरिम्मानं य ब्रह्माणं सभवं ततः विवेशसुतलं प्रीतो बलेर्मुक्तः सखासुरैः एवमिन्द्राय भगवान् प्रत्यानीय त्रिविष्टपं पूरयित्वादिते कामम् असासत्सकलं जगत् लब्धप्रसातं निर्मुक्तं पौत्रं वंसधरं बलिं निशां व्यभक्तिप्रवणः प्रग्ला ितब्रवीत् प्रह्लादौ वाचं विरिञ्चो लभते प्रसात् नः शीर्ण नः सर्व किमुता परे ते यन्नो सुराणमसि दुर्गभालो विश्वाभिवन्त्यैरभिवन्दिधाृहे यत्पादपद्ममगरन्तनिषेवनेन ब्रह्मा तयः शरणदास्नुवते विभूतिः कस्मात् त्वयम् कुश्रुतयः कलयो न यस्ते दाक्षिण्यदृष्टिपदवे भवतः प्रणीताः चित्रं तवेहितमहोमितयोगमाय लीलाविसृष्टभुवनस्य विशारदस्य सर्वात्मनः समदृशो विषमस्वभावो भक्तप्रियो यदसि कल्पतरुःस्वभावः श्रीभगवानुवाच वत्सप्रक्लातभद्रं ते मोदमानस्वपौत्रेण ज्ञातीनां सुखमावह नित्यं द्रष्टासि मां तत्र गतापाणिमवस्थितं मद्दर्शनमहाक्लादध्वस्तकर्मनिबन्धनः श्रीशुक उवाच आज्ञाम् भगवतो राजन्प्रह्लादो बलिना सह भाटमिति अमलप्रज्ञो मूर्तन्याधाय कृताञ्जलिः पुरुषं परिक्रम्य आदिपुरुषं सर्वासुरचमुपति हे प्रणतस्तदनुज्ञातप्रविवेशमहाबिलम् अताहोसनसम्राजन् हरिर्नारायणोऽके आसीनं रुद्विजां मध्ये सदसि ब्रह्मवादिनां ब्रह्मन् सन्तनुःशिष्यस्य कर्म चित्रं वितन्वतः यत्तत्कर्मसु वैषम्यं ब्रह्म समं भवेत् शुक्र कुतस्तत्कर्म वैषम्यं यस्य कर्मेश्वरो भवान् यज्ञेशो यज्ञपुरुषः सर्वभावेन पूजितः मन्त्रतस्तन्त्रतश्चित्रं देशकालार्हवस्तुतः सर्वं करोति निश्चित्रं नाम सङ्कीर्तनं तथापि वधमो भूमन् करिष्यामि अनुशासनं एतश्रेयः परं पुंसां यत्तवाज्ञानुपालनं श्रीशुक अभिनन्द्य हरे आज्ञामुसना भगवानिति यज्ञच्चित्रम् समाधत्त बलेर्विप्रर्षिभिः सहान् एवं बलेर्महीं राजन् भिषित्वा वामनोहरिहे ददौ प्रात्रे महेन्द्राय त्रिदिवं यत्परैर्हृतं प्रजापतिपतिर्ब्रह्मादेवर्षि पितृभूमिपैहे दक्षभृङ्गिरो मुख्यै कुमारेण भवेन प्रीत्यै सर्वभूतभवाय लोकानां लोकबालानाम् अकरो ध्वामनं वेदानां सर्वदेवानां धर्मस्य श्रियः मङ्गलानां व्रतानां च कल्पं स्वर्गाभवर्गयोः उपेन्द्रं कल्पयाञ्चक्रे पतिं सर्वविभूतये तदा सर्वाणि भूतानि भृशं मुमुदिरे नृपन् ततस्विन्द्रः पुरस्कृत्य देवयानेन वामनं लोकपालेर्दिवं निन्ये ब्रह्मणा च अनुमोदितः प्राप्य त्रिभुवनं चेन्द्रभूपेन्द्रभुजपालितः श्रिया जुष्टो मुमुदे गदसाध्वसः ब्रह्मा शर्वकुमारश्च भृक्वाद्यो मुनयो नृप पितरः श्च ये सुमहत्कर्म तत् विष्णोर्गायन्तः परमाद्भुतं तिष्याणि स्वानि ते जग्मो रथितं च ससं शिरे सर्वमेतन्मया उरुक्रमस्य चरितं श्रोतॄणामगमोचनम् पारं महिं न गुरुविक्रमदो गृणानो यः पार्थिवानि विममे पुरुषस्य यस्य यहितं देवदेवस्य हरे अद्भुतकर्मणः अवतारानुचरितं शृण्वन् याति परां गतिं दैवे कर्मणीदं दैवेभित्रेतभानुषे यत्र यत्रानुकीर्तयेत तत्तेशाम् सुकृतं विदोहो इति श्रीमद्भगवते महापुराणे अष्टमस्कन्दे वामनावदाचरिते त्रयोविंशोऽध्यायः सर्वत्र गोपिकाजीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहाराज की जय